गणेशपुराणम् उपासनाखण्डम् अध्यायं फोर्टि त्रि ब्रह्मोवाच अयुध्येतां द्वन्द्वशोधगिरिशासुरनायकौ षण्मुखेन प्रचण्डश्च नन्दिना चण्ड एव च युयुधे पुष्पदन्तोऽपि भीमकायेन वीर्यवान् भ्रुचुण्डी कालकूटेन विश्ववत्प्राणहारिणा अयुध्येदां वीरभद्रवज्रदंष्ट्रौ महाबलौ इन्द्रोऽपि युयुधे तत्र दैत्यामात्येन वीर्यवान् दैत्यपुत्रेण बलिना जयन्तो युद्धदुर्मदः काव्येन यो यु तत्र सुराचार्योऽस्त्र वित्तमः देवानां चैव दैत्यानामेवं द्वन्द्वान्यनेकषः वर्णितुं नैव शक्यानि मया वर्षशतैरपि रथिनो रथिभिः सार्धं गजिनो गजिभिः सह अश्वारोहास्वसदृशैः पदाताश्च पदातिभिः युयुधु संयुगे घोरे नानावाद्य निनादिते हेषितैर्ब्रंहिधैः क्ष्वेडैर्नेमिनादैश्च शब्दि शब्दिते। केचिच्च मल्लयुद्धेन युयुधुर्विविधेन तु जग्नुरङ्गानि चाङ्गेषु त्यक्त्वा शस्त्राणि संयुगे तदप्रचण्डो नवभिस्ताडयामासषण्मुखम् आकर्णकर्ष शरै शिलाशिद अने शर सनपर्व ताडयामास याड़यक सम्मूर्च्छिदोपदद् भूमौ प्रचण्डो भ्रान्तमानसः नन्दिनापि हदश्चण्डः पञ्चभिनिशितैः शरैः मूर्छामवापसहसा पतितो धरणीतले भीमकायपुष्पदन्दमविद्य दशभिः शरैः छेदयामाससमरे स्वशरैर्निशितैः सतान् त्रिभिरेवाहनत्तं च सोपि भूतलमाश्रितः कालकूटं भृशुन्धीस्तु पादयामास पञ्चभिः शरायर्महाबलस्तत्र वीरभद्रो रुषायुधः वज्रदंष्ट्रस्तदो जग्ने, चतुर्भिर्निशितैः शरैः तान्निवार्य स्वयं जघ्ने वीरभद्रं त्रिभिः शरैः तानापततये वाशुवीरभद्रोच्छिनत्त्रिभिः पादयामास वेगेन वज्रदंष्ट्रं त्रिभिः शरैः इन्द्रोऽपि वज्रपादेन दैत्यामात्यं न्यपादयत उद्यम्यनिशिदं खड्गं दैत्यपुत्रः समाययौ हन्तुकामो जयन्तं तं वीरेषु पतितेषु च तम् निरीक्ष्य तथा यान्तम् खड्गम् चिच्छेदपत्रिणा जयन्दोऽभ्यहनच्छीघ्रम् दैत्यसूनुम् त्रिभिः शरैः तैराकदो वमनृक्तम् नृपतन्मोहसंयुतः एवम् सर्वेषु सैन्येषु प्रभग्नेषु समन्तदः दृष्ट्वा पलायनपरान् दैत्यान् देवगणार्दितान् अधावन्पृष्ठध जयशालिनः एवं जयत्सु देवेषु स्वसैन्ये विध्रुदेऽपि च आययौ स्वयमेवेश्यं त्रिपुराधिष्ठितोऽसुरः शस्त्रयुद्धं पुरा कृत्वा युध्ये तामस्त्रदो ह्युभौ जहौ दैत्यो वृष्टिर्घोरतरा भवद निहारबहुले युद्धे न प्राज्ञा यद किञ्चन क्वचिद्विद्युत्प्रकाशेन स्वपरज्ञानकारिणा युद्धमासीत्तु तुमूलं कोररूपं दुरासदं विलोक्यसैन्यं तत्सर्वं वृष्टिवादप्रपीडितं शिलापादभयाद्यादे स्वसैन्ये तु दिशो दश वायव्यमस्त्रं गिरिशो मोचयामाससत्वरम् महावादा महावातामहामेखा विशीर्णाखण्डशोऽम्बरे वादेन कूर्णिदासेन दैत्यानां सर्वतो दिश्यं जगलुः पक्षिपिच्छानि वीरोष्णीषाणि दूरतः पतिताश्चूर्णिता के उन्मूलिता लता वृक्षाच्छादयन्ति स्म सैनिकान् पन्नगास्त्रेण तं वायुं तथा दैत्योऽन्यवारयत आकर्णधनुराकृष्य तूणाद्बाणं प्रगृह्य च मन्त्रयन्ननलास्त्रेण अङ्गारवृष्टिः सहसा पतिता सर्वदाहिनी प्रलयं मेनिरे सर्वे ज्वालामालाभिरर्दिता का ज्वालाभ्यो दीप्यमानाभ्यो महाभ्येदिकरः पुमान् अविरासीन्महाकायो लिखन्मूर्ध्ना नभस्तलम् दंष्ट्राकरालवदनो महारावः क्षुधातुरः लालयन्रसनं खोरां शतयोजनविस्तृतां नासा पवनवेगेन भ्रामयन् कुञ्जरान्द्रणे भक्षयामासतां सेनामुरगानिव पक्षिराट अपि फलद्भर्गसेना तेन पुंसा प्रपीडिता शिवपृष्ठं समासाद्य रक्ष रक्षेदि चाब्रवीद मा भैष्टेत्यभयं तस्यै दत्त्वा वह्निन्यवारयद पर्जन्यास्त्रप्रपादेन तत्क्षणाद् गिरिजापतिः बाणेनैकेन तं घोरं पुरुषं संन्यपादयद तद उद्धाय पुरुषो बभक्ष पराप्रमधा ययुक्पलायनपरा प्रमादाभयविह्वलाः स्खलन्दो निपतन्तश्च निःश्वसन्तश्च कम्पिरे शिवोऽपि निःसभायत्वाद्धरी मेवान्वपद्यत दयो वीरा अनुस्रुस्तमेवहि जिघृक्षुर्गिरिजां दैत्यो विचिन्त्यै काकिनीं गिरौ विहायरणभूमिं तु ययौ कैलासमे वसः दुरा दृष्ट्वा तमायान्तं चकम्बे उवाच पितरं गत्वा दैत्यो माम् किं नुनेष्यदि तस्यास्तद्वचनं श्रुत्वा नीत्वा तां दुर्ग गृहाम् अविज्ञादां स्वतरेण स्थापयामासनर्भयां सोऽपि दैत्यस्तदो हैमं गिरिं तद्ग्रहणेच्छया आगदो न ददर्शाधगिरिजां क्वापि सत्तम भ्रमन्ददर्श तत्रैकां मूर्तिं चिदां मणे शुभाम् सहस्रसूर्यसङ्काशं नानालङ्कारशोभिनीं त्रैलोक्यसुन्दरां सद्यो गृहीत्वा स्वस्थलं ययौ नानावादित्र निर्घोषैस्तुवद्भिर्बन्दिभिर्वृतः तदः पादालमगमत्सर्वत्र विजयी बली गच्छतस्तस्य दैत्यस्य हस्तेऽप्यन्तर्हिता तदा मूर्तिश्चिदा मणे साधु तदद्भुतमिवा भवत तमेवा तत्पुरं पुनराविशत अत्यन्तं विमनाश्चिन्तां दुरुतां समुपागतः इति श्रीगणेशपुराणे उपासनाखण्डे त्रिचत्वारिंशत्तमोऽध्यायः ओ